हरिः ओं श्रीहरि नमः अथ षष्ठोऽध्यायः श्रीशुक उवाच विरूपकेतुमां अम्बरीशसुतास्त्रयः विरूपात्पृषदस्वो तत्पुत्रस्तुरतीरतरः प्रतीतरस्य अव्रजस्य भार्यायां तन्तवेर्तितः अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसा शोवतस्तु मनोर्जज्ञे इक्ष्वाकुर्क् घ्राणतः सुतः तस्य पुत्रसध ज्येष्ठा विकुशीनिमिदण्डकाः तेषां पुरस्तात् अभवन् आर्यावर्ते नृपा नृप पञ्चविंशतिपश्चाच्च त्रयो मध्ये परेण्यतः स ये गदाष्टाकाश्राद्धे इक्ष्वाकुसुतमादिशत् मांसम् मनीयतां गच्छमाचिरम् तदेति सवनं गत्वा मृगान् हत्वा क्रियार्हणान् शान्तो बुभिषितो वीर ससंचाधतबस्मृतिः शेषं निवेदयामास पित्रे तेन च तद्गुरुः चोदितः प्रोक्षणायाः दुष्टमेधकर्मकं ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः देशान्तिः सारयामास सुतं त्यक्तविधिमृषा सतो विप्रेण जापकेन समाचरन् त्यक्त्वा कले योगी सधेनावाप यत्परं पितर्योपरतेऽभ्यत्य विकुषिप्रीतिवीमिमा ससाधी जय हरिं यज्ञै ससाध इति विश्रुतः पुरञ्जयस्पुरञ्जयस्तस्यै सुत इन्द्रवाक इतीरितः ककुस्तयिति चाप्योक्त शृणु नामानि समरो देवानां सकधानवैः पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभो वाहनत्वे वृतस्तस्य बभोव वा इन्द्रो महावृषः स सन्नद्धोधनुर्दिव्यमाताय विचिकांक्षितान् तूयमानसमारुह्य युयुत्सुखगुतिस्थितः तेजसा प्यायितो विष्णो पुरुषस्य परात्मनः प्रतीक्षां दिशि दैत्यानां न्यरुणत्रिदशैः पुरं तैस्तस्य चाभूत्प्रधनं तु लोमहर्षणं यमायपल्लरैनयत् धैत्यान ये वियुर्मृधे तेषु पाधा मुख्यमुधा बोलभ विसृज दु ्रुवोर्दैत्या हन्यमाना स्वमालयं धनं सर्वं समीकं वज्रपाणये प्रत्ययच्छत्स राजर्षे रिथी बिराहृतः पुरञ्जयस्य पुत्रो भूतनेनास्तत्सुतः पतुः विश्वरन्दिस्ततश्चन्द्रो युवनाश्वश्च तत्सुतः सा भस्तत्सुधोयेन सा निर्ममे पुरी बृहदस्वस्तु सा यः प्रियार्थं बुदङ्कस्य दुन्दुनामासुरम्बली सुतानामेकविंशद्या सहस्रै्यहनद्वृतः दुन्दुमारयिति ज्ञातस्तत्सुतास्ते च जज्ज्वलुः दुन्दोर्मुगाग्निना सर्वे त्रय एव अवशेषिताः दृढास्वकपिलाश्वश्च भद्राश्व इति भारत दृढावस्पुत्रो ह्यर्षस्वो निगुम्भस्तत्सुतः संवृतः बर्षणाश्वो निगुम्भस्य कृशाश्वो तास्य सेन जेत् युवनाश्वो भवत्तस्य सोनभत्यो वनं गतः भार्या सतेन तेन निर्विण्ण ऋषयोऽस्य कृपाळवः इष्टिं स्म वर्तयाञ्चक्रो ऐन्त्रीं सुसमाहिताः राजा तद्यज्ञसधनं प्रविष्टो निशिदर्शितः दृष्ट्वा सयानान् विप्रांस्तान् बभौ मन्त्रजलं स्वयम् उत्थितास्ते निशां व्युदकं कलशं प्रभो पप्रच्छुक्कश्य कर्मेदं पीतं पुंसवनं जलं राज्ञा पीतं विधित्वात् ईश्वरः प्रहितेन ते ईश्वराय नमश्चक्रोर् अहो दैव बलं बलम् ततः कालवुपावृत्ते कुशिं निर्भीत्य तनयश्चक्रवर्ती जजानः कं दास्यति स्तन्यं रोयते वृषं मां इतिन्द्रो देसि निमधात् न मरपिता तस्य विप्रदेव प्रसादतः युवना स्वोत तत्रैव तपसा सिद्धिं मन्वगात् त्रसद्धस्यु विदधे नाम वै यस्मात्र सन्ति हि उद्विघ्ना वो रावणादयः यौवनाश्वतमन्धाता चक्रवर्त्यवनीं प्रभुः सप्तद्बीभवतीमेक स सा साच्युततेजसा ईजे सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् द्रव्यं मन्त्रोभितर्यज्ञो यजमानस्तथर्विजः धर्मोद्देशश्च कालश्च सर्वमेधत्यधात्मकं यावत् सूर्यबुधेति स्म यावश्च प्रतिष्ठति सर्वं तत्यौवना स्वस्य मान्धातुक्षेत्रमुष्यते स स बिन्दोर्दुखितरी बिन्दुमत्यामधान्पहा पुरुकुत्सं अम्बरीशं मुचुकुन्तं च योगिनं तेषां स्वसारपञ्चाशत् सौभरीं वव्रिरेपतिं यमुनान्तर्जले मग्नस्तप्यमानः परन्तपः निर्वृतिं मीनराजस्य वीक्षमयितु धर्मिणः जातस्पृहो नृपं विभ्र च सोऽप्याह गृह्यतां बृंहन् कामं कन्या स्वयंवरे सविचित्या प्रियं स्त्रीणां जरटोयमसम्मतः वलीपलितये जत्कन् इत्यहं प्रत्युदाहृतः साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितं किं पुनर्मनुजेन्द्राणाम् इति व्यवसितः प्रभुः मुनिप्रवेशितक्षत्रां कन्यान्तः पुरमुद्धिम पञ्चाशतावरः तासां कलिरभूद्भूयांस्तदर्थे भोह्यसौहृदं ममानुरूपो नायंभ इति तद्गतचेतसां सभगृचस्थाभिरपारणीय तपः श्रियानर्घ्यपरिश्च गृहेषु नानो भवनामलाम्भ सरस्सु सौगन्धिककानेषु मकार्यसंयासनवस्त्रभूषण स्नानानुले भाव्यवकारमाल्यकैः स्वलङ्कृतश्रीपुरुषेषु निध्यथा रे मेनुगायद्विजभृङ्गवन्दिषु यद्गार्हस्थ्यं तु संवीक्ष्य सब्दद्वीपवतीपतिः विस्मितस्तम्भमजहात् सार्वभौमश्रियान्वितं एवं गृहेष्वभिरतो विषयान् विविधैः सेवमानो न चातुष्यत् आजस्थोकैयिवानलः सखदाचिदुपासीन आत्मापन्हवमात्मनः ददर्श बहृचाचार्यो मीनसङ्गसमुत्थितम् अहो इमं पश्यतमे विनासं तपस्विनः सच्चरितव्रतस्य अन्तर्जले वारिचरप्रसङ्गात् ब्रह्मचिरं धृतं येत् सङ्गं त्यजेत मिनुतव्रतिना मुमुक्षु सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि एतश्चरन् रकसि चित्तमनन्तयीषे युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः एकस्तपस्व्यम् अमधाम्बसि मत्स्यसङ्गात् पञ्चासदासमुत पञ्चसहस्रसर्ग ना तं व्रजां युभयकृत्यमनोरथानां मायागुणैर्हृतमतिर्विषयेऽर्थभावः एवं वसन् गृहे कालं वनं जगामानु युयोस्तत्पत्न्यः पतिदेवताः तप्त्वा तपस्तीक्ष्णम् आत्मक आत्मकर्षणमात्मवान् सहैवाग्निभिरात्मानं युयोज परमात्मनि तास्वपत्युर्महाराज निरीक्ष आध्यात्मिकीं गतिम् अन्वीयुस्तत्प्रभावेन अग्निं सान्तमिवार्चिषः इति श्रीमद्भागवते महापुराणे नवमस्कन्ते सौपर्याख्याने षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज के जय